चतुर्थोऽध्यायः ध्यानम् ॐ कालाभां कटाक्षी अधिकुलभेदां मौलबद्धिन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशुखमपि करयदृद्वहन्तीं त्रिनेत्रां सिंहस्कन्धाधिरूढां त्रिभुवनमखिलम् तेजसा पूरयन्तीं ध्यायेद्दुर्गां दयाख्यां त्रिदसिपरिवृतां सेवितां सिद्धिकामये ॐषिरुवाच सक्रादयसुरगणानि हितेतिविर्ये तस्मिन् दुरात्मनि सुरारिबले च देव्यां तां तुष्टो प्रणतिनं रसिरोधरांसाम् ी प्रहर्षफलकोद्गमचारु देहा देव्याययातमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या तामम्ब्यकामखिल देवमहर्षिपूज्यां भक्त्या न तास्मं विदधास्तु पाणिशानां यस्या प्रभावमतुलं भगवानन्दो ब्रह्माहरश्च न हि वक्तुमलं बलं च सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभयश्च मतिं करोतु या श्री स्वयं सुकृतिनां भवणेष्वलक्ष्मी पापात्मनां कृतधियां हृदये सुबुद्धि श्रद्धा सतां कुलजनप्रभुवस्य लज्जा तां त्वां न तास्म परिपालय देवि विश्वं किं वाणयां तव रूपमचिन्त्यमेतत् किं चा त्रिवीर्यमसुरक्षय कार्य भूरि किं चाहवैषुचरितानि तवाद्भुतानि सर्वै सुदेव्यसुरदेव गुणादिकेषु हेतो समस्तजगतां त्रिगुणापि दोषै न ज्ञायशी हरिहरा जिविरप्यपारा सर्वाश्रयाखिलमिदं जगदन् सभूत हि परमा प्रकृते समाद्यां यस्या समस्तसुरता समुदीर्नेन तृप्तिं प्रयाति सखलीषु मखी सुदेवी स्वाहा शिवै पितृगणस्य च तृप्तिहेतुर् उच्चार्यसे त्वमत एव जनैः सदा च या मुक्तिहेतुर्विचिन्त्यमहावृता त्वम् अभ्यस्यसे सुनीयतेन्द्रियतत्प्रसारै मोक्षार्सिभिमुनिभिरस्तसमस्तदोषै निद्याशिषा भगवती परमाशि देवी श्रद्धाग्निकासिमिं गजु साम् निधानम् उद्गीथरम्यपदपाठवतां च साम्नां देवी त्रयी भगवती भवभावनाय वार्ता च सर्वजगतां परमार्तिहन्त्री मेधासि देवीविदिता किलशास्तु सारा दुर्गासि दुर्गभवशागरनौरसङ्गा श्रीकैष्ठभारिहृदिककृताधिवाच गौरीतमेव शशिमौनकृतप्रतिष्ठा ईशसहासमनं परिपूर्णचन्द्र बिम्बानुकारिकनकोत्तमकान्तिकान्तम् अत्यद्भुतं प्रहितमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषाचुरेण दृष्ट्वा देविकुपितं देवि कुपितं मृगुटीकरालम् उद्यच्छसाङ्कसदि सच्छवियन्न सद्य प्राणान् बमोच महिषस्तदतीव चित्रं कैजीव्यतेः गुपितान्तकदर्शनेन देवी प्रसीदपरमा भवती भवाय सद्यो विनाशयति विज्ञातमेतदनुनैवेयस्तमेतन् नीतं बलं शिवफुलं महिषा सुरश्च तेषां मता जनपदे सुधनानि तेषां तेषां यसांसि न च सीदति धर्मवर्ग धन्या च एव निवृतात्मतु भृत्यधाराम् येषां तदाभ्युदयदा भवति धर्माणि देवि सकलानि सदैव कर्माणि अद्यादित प्रतिदिनं सुकृती करोति स्वर्गं प्रयाति च ततो भवति प्रसादान् लोकत्रयेऽपि फलदा ननुदेवि तेन दुर्गे स्मृता समसे सृजन्तो तस्थै स्मृता ददासि दारिद्र्यदुःखभयहारिणिकातुरन्या सर्वोपकारकर्णाय सदा सचेत्ता एभिर्हतै जगदुपैति सुखं तथैति कुर्वन्तु नाम नरकायचिराजपापं सङ्ग्रामवृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान् विनिहंसि देवी दृष्टैव किं न भवति प्रकरोऽसि भस्म सर्वासुरा नरिसु यत् बृह्णोसि शस्त्रं लोकान् प्रयान्तरिपोऽपि हि शस्त्रपूता यत्थं मतिर्भवति ते स्वपितेति साध्वी फड्गप्रभानिकरविस्फुरणैः सथोऽग्रैः चोलाग्रकान्तिनिवहे नरिशोऽसुराणाम् यन्नागताविलयमं सुमदिन्दुखण्ड योग्याननं तो विलोकयतां तदेत दुर्वृत्तवित्तशमनं तव देवशीलं रूपं तथैतदपि चिन्त्यमतुल्यमन्यै वीर्यं च हन्त्रिहितदेव पराक्रमणां वैरेष्वपि प्रकटितैव केनोपमा भवतु पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र चित्ते कृपा समरनिष्ठुर्ता च दृष्टा त्वय्यैव दैव वरदे भुवनत्रयेऽपि त्रैलोक्यमेतदखिलं रिपुना शुनिना प्रातं तया समरमूर्धनितेऽपि हत्वा नीतादिवं रिपगुणाभयमप्यपास्त अस्माकमुन्मदसुराजिभवं नभस्ते शूले न पाहि नो देवी पाहि खड्गेन चाम्बिके घण्टाशनीनः पाहि चापज्यानिशनेन च राच्यां रक्षप्रतीत्यां च चण्डिके रक्षदक्षिणे रावणीनात्मशूरश्च उत्तरशान्तसेश्वरी सौम्यानि यानि रूपाणि तैलोके विचरन्दि ते यानि चात्यर्थघोराणि तैरक्षास्मात् सा भुवं रक्ष सर्वत ऋषिरुवाच एवं सुता सुरे दिव्यैः कुसुमै नन्दनोद्भवै अर्चिता जगतां धात्री तथा गन्धारिलीपनैः भक्त्या समस्तैस्त्रिदशे दिव्यै धूपैः सुधूपिता प्राहप्रसाद सुमुखी समस्तान् प्रणतान् सुरान् देव्युवाच प्रियतां तेरसा सर्वे यदस्मत्तो भवाञ्छितं देव्यु वा ऋचुः सर्वं न किञ्चिदवशिष्यते यदियं निहतं शत्रु अस्माकं महिषाशिरः यदि चापि वरोदे यत् प्रियास्माकं महेश्वरी संस्मिता संस्मिता हिंसैथा परमापदः यश्च मल्तास्वरैरेवी त्वां तोष्यत्यमनानरे तस्य वित्तर्धिविभुवैर्धनधारादिसम्पदां वृद्धैस्मत् प्रसन्ना त्वं भविता सर्वदाम्बिकै ऋचिरुवाच जगतोऽर्थे तथात्मनः तथेतो क्वा भद्रकाली बभुवान्तर्हितानुप एत्येतत्कथितं भोप सम्भूता सा यथा देवी देवशरीरेभ्यो जगत्ते हितैषिणी गौरी देहासा समुद्भूता यथा वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयो रक्षणय च लोकानां देवानामुपकारिणि तत्रुणस्व माम्या ख्यातं यथावत् कथयामि ते ह्रीं ॐ श्रीमार्कण्डे पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये सत्वादिस्तुतिर्नाम